श्री श्रीगुभ्यो नम हरि ओ अपूर्णोपनिषद अय गतिषद वापि जाग्रतस्वदिवा नीचार परचे यत उच्य सम्य ज्ञान सलोक समस्वयं न चादत्ते वैवश्यम् न च दीनताम् अपवित्रमपद्यम् आप च विषसम् सर्गदूषितम् भुक्तम् जरयदिज्ञानी क्लिन्नम् नष्टम् च मृष्टवद सञ्ज्ञुगत्याघम् विधुर्मोक्षम् सङ्गत्यागादजन्मदा संगम त्यज्वा जीवन्मुक्त भावख भावा भाव पदार्था हर्ष विकारदा मलिना वसना संग यद कथ्यते जीवन्मुशमुनर्जन्मकारिणी मुक्ता हर्षविषादाभ्याम् शुद्धा भवति वासना दुःखैर्नग्लानि मायासि हृदि हृष्यसि नो सुखैः आशा वैवश्यमुत्सृज्य निदाका सङ्गतां व्रज दिक्कालाद्यनवच्छिन्नमदृष्टो भयकोटिकम् चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरद इति मत्वाहमित्यन्तर्मुक्तामुक्तवपुः पुमान् यकरूपः प्रशान्तात्मा मौनी स्वात्मसुखो भव नास्ति नमनो नचजीवकः चाविद्या न देहे यावदहम्भावो दृश्येऽस्मिन्यावदात्मदा यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः अन्तर्मुखतया सर्वम् चिद्वाह्नौ त्रिजगतृणम् जुह्वन्दोन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः चिदास्मि निरंशोऽस्मि परापरविवर्जितः रूपं स्मरन्निजं स्वारं मास्मृत्या सम्मिदो संमिदो भव अध्यात्मशास्त्रमन्त्रेण तृष्णा विषविषूचिका क्षीयन्ते भावितेनान्तः शरदा मिका यथा परिज्ञाय परित्यागो सना उत्तम सत्ता कल्यप विदु यन्नास्ति तत्षुप्त न सिद्धे निर्बीज वासनायत्र तत्ल्य सिद्धिदं स्मृदम वासनायास्तथा वह्नेर्ृणव्याधिद्विषामपि स्नेहवैरविषाण च शेषस्वल्पोऽपि बाधते निर्दग्धवासनाबीजसत्तासामान्यरूपवान् स देहो वा विदेहो वा न भूयो देवा एतावदेवाविद्यात्वं नेदं ब्रह्मेदि निश्चयः एष ये वक्षयस्तस्या ब्रह्मेदमिति निश्चयः ब्रह्मचिद् ब्रह्मभुवनं ब्रह्मभूतपरम्परा ब्रह्माकं ब्रह्मचिच्छत्रु ब्रह्मचिन्मित्रबान्धवाः ब्रह्मैव सर्वमित्येव भाविदे ब्रह्म वैपुमान् सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते असंस्कृताध्वगालोके मनस्यन्यत्र संस्थिते या प्रतीदिरनागस्कात्तच्चिद्ब्रह्मास्मि सर्वगं प्रशान्तसर्वसङ्कल्पम् विकदाखिलकौतुकं विकदाशेषसंरम्भं चिदात्मानं समाश्रया एवं पूर्ण समा नीरागचेदसः न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा प्राणोयमनुष्यं ब्रह्मस्पन्दशक्तिः सदा गतिः सबाह्याभ्यन्तरे देहे प्राणोसावूर्ध्वगस्थितः अपानोऽप्यनिश्यम् ब्रह्मस्पन्दशक्तिः सदा गतिः सबाह्याभ्यन्तरे देहे अपानोऽयमवाप्स्थितः जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः प्रवर्तदेह्यभिज्ञस्य तम् तावच्छ्रेयसे शृणु द्वादशाङ्गुलपर्यन्तम् बाह्यमाक्रमदां तदः प्राणाङ्गनामा संस्पर्शो यः स पूरक उच्यते दे। अपानश्चन्द्रमा देहमप्याययदि सुव्रत प्राणः सूर्योऽग्निरथ वा प्राणक्षय समीपस्तम अपानो प्राणक्षयसमीपस्थमपानोदयकोटिकम् अपान प्राणयो प्राणयोरैक्यम् हिदात्मानम् समाश्रय अपानोऽस्तङ्गदो यत्र प्राणो नाभ्युदः क्षणम् कला कलङ्करहितम् तच्चित्तत्वम् समाश्रय नापानोऽस्तं गदो यत्र प्राणश्चास्तमुपागतः नासाग्रगमनावर्तं तच्चित्तत्वमुपाश्रय वेदं। न स नासज्जगत्रयम् इत्यन्यकलनात्यागं सम्यक् ज्ञानं विदुर्बुधाः आभास्समात्रकं ब्रह्मं चित्तदर्शकलङ्कितम् ततस्तदपि सन्त्यज्य निराभासो भवोत्तमा भयप्रथमकल्याणं धैर्यसर्वस्वहारिणम् मनः पिशाचमुत्सार्य योषिषोऽसि स्थिरो भव चिद्व्योमेव किलास्तीह परापरविवर्जितं सर्वत्रा सम्भवचैत्यम् यत्कल्पां देवशिष्यते वाञ्छाक्षणे तु या तुष्टिस्तत्र वाञ्छैव कारणं तुष्टिस्त्वतुष्टिपर्यन्तात् तस्माद्वाञ्छां परित्यज आशा यादु निराशात्वमभावं यादु भावना अमनस्त्वमनो यादु तवा सङ्गेन जीवतः वासना रचितैरन्तरिन्द्रियैराकरन् क्रिया न विकारमवाप्नोषि खवक्षोभशतैरपि चित्तोन्मेषनिमेषाभ्याम् संसारप्रलयो दयौ वासना प्राणसंरोधमनुन्मेषम् मनः कुरु संसृतेः प्रलयोदयौ तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसङ्गमैः असंवित्स्पन्दमात्रेण यादिचित्तमचित्तताम् प्राणानां वा निरोधेन तदेव परमं पदम् दृश्यदर्शनसम्बन्धे यत् सुखं परमार्थिकं तदन्तैकान्तसं विद्या ब्रह्म दृष्ट्यावलोकया यत्र नाभ्युदितं चित्तं तद्वै सुखमकृत्रिमम् क्षयातिशय निर्मोक्तम् नोदेति न शाम्यदि यस्य चित्तम् न चित्ताख्यम् चित्तम् चित्तत्वमेव हि तदेव तुर्यावस्थायम् तुर्यातीतम् भवत्यतः सञन्यस्तसर्वसङ्कल्पः समः संन्यासयोगयुक्तात्मा ज्ञानवान् मोक्षवान् भव सर्वसङ्कल्पसंशान्तं प्रशान्तखनवासनं न किञ्चित् भावनाकारं परं विदुः सम्यक् ज्ञानावरोधेन नित्यमेकसमाधिना साङ्ख्य ते साङ्ख्या योगिनः परे प्राणाद्य निल युक्त्या ये पदमागताः अनामयमनाद्यन्तं ते स्मृता योगयोगिनः उपादेयं तु सर्वेषां शान्तं पदमकृत्रिमम् एकार्थाभ्यसनं प्राणरोधश्चेदः परिक्षयः एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् अविना भाविनी नित्यं जन्तूनां प्राणचेतसि आधाराधेयवच्चैते एकभावे विनश्यदः कुरुतः स्वविनाशेन कार्यं मोक्षाख्यमुत्तमं सर्वमेतद्धिया यदि तिष्ठसि निश्चलः विलये त्वमेव परमं पदम् महाचिदेकैवेहास्ति महासत्ते नियोच्यते निष्कलङ्गा समाशुद्धा निरहङ्काररूपिणी सकृद्विभा विमला नित्योदयवती समा सा ब्रह्म परमात्मेदि नामभिः परिगीयते सैवाकमिति निश्चित्य निदाक कृतकृत्यवान् न भोदं न भविष्यच्च चिन्तयामि कदाचन दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना इदमद्य मया लब्धमिदं इदम प्राप्स्यामि सुन्दरं न स्तौमि न च निन्दामि आत्मनोऽन्यन्न हि क्वचिद न तुष्यामि शुभप्राप्तौ न खिड्याम्यशुभागमे प्रशान्तचापलं वेदशोकमस्तसमीहितम् मनो मम मुने शान्तं तेन जीवाम्यनामयः अयं बन्धुः परश्चायं ममायमयमन्यकः इति ब्रह्मन् न जानामि संस्पर्शं न ददाम्यहम् वासनामात्रसन्ध्यागाजरामरणवर्जितम् सवासनं मनोज्ञानं ज्ञेयं निर्वासनं मनः चित्ते लयं या दिद्वैदमेदच्च सर्वतः शिष्यते परमं शान्तमेकमगच्छमनामयम् अनन्दमजमव्यक्तमजरं शान्तमच्युदम् अद्वितीयमनाद्यन्तं यदाद्यमुपलम्भनम् एकमाद्यन्तरहितं चिन्मात्रममलं तदं ख्यादप्यतितरां सूक्ष्मं तद्ब्रह्मास्मिन् संशयः दिकालाद्यनवच्छिन्नं स्वच्छं नित्योदिदं तदं सर्वार्थमयमेकार्थं चिन्मात्रममममलं भव सर्वमेकमिदं शान्तमादिमध्यान्तवर्जितं भावाभावमजं सर्वमिधि मत्वा सुखी भव न बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवस्मि सच्चिदानन्दलक्षणः एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि पदार्थवृन्दे देहादि धिया सन्त्यज्य दूरतः आशीतलान्धकरणो नित्यमात्मपरो भव इदं रम्यमिदं नेदि बीजं ते दुःखः सन्ततेः तस्मिन् साम्याग्निना दग्धे दुःखस्यावसरकृतः शास्त्रसज्जनसम्पर्कैः प्रज्ञामादौ विवर्धयेद् ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् तदा स्थूलमनाकाशमसंस्पृश्यम चाक्षुषम् न रसं न च गन्धाघ्यमप्रमेयमनूपमम् आत्मानम् सच्चिदानन्दमनन्दम् ब्रह्म सुव्रद अहमस्मीत्यभिध्याये ध्येयातीदम् विमुक्तये समाधिः संविदुत्पत्तिः परजीवैकतम् नित्य सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः एकः सन्भिद्य मायया नस्वरूपदः स्वरूपदः तस्मादद्वैत एवास्ति न प्रपञ्चो न खडाकाशो महाकाश इतीरितः तदा भ्रान्तेर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना यदा मनसि चैतन्यं भादि सर्वत्र गं सदा योगिनो व्यवधानेन तदा संप्य स्वयं यदा सर्वाणी भूता है स्वात्मन हि पश्य सर्वूतेशात्न ब्रह्म संपद्य सदा यदा सर्वाणी भूतास्थ न पश्य ये भूदपरे सौ तदा कवल शास्त्रसज्जनसम्पर्कवैराग्याभ्यासरूपिणी प्रथमा भूमि कैशोक्ता मुमुक्षुत्वप्रदायिनी विचारणाद्वितीया स्यात् तृतीया साङ्गभावना विलापिनी चतुर्थी स्याद्वासना विलयात्मिका शुद्ध संविन्मनानंद पंचमी अर्धसुप्त प्रबुद्धा भो जीवन्मुक्ति असंवेदनू भविका आनंदक सुषुप्तसदृशी स्थितवस्थाता सा मुक्तिरेव हि केवला समदा स्वच्छता सौम्या सप्तमी भूमिका भवेद भवेद् तुल्यातीतादुयावस्था परा निर्वाणरूपिणी सप्तमी सा परा प्रौढा विषयो नैव जीवताम् पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितं चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगद आनन्दैककनकारा सुप्ताख्यादु पञ्चमी असंवेदनरूपादुषष्टी तुल्यपदाभिद्धा तुल्यातीतपदावस्थासप्तमी भूमिकोत्तमा मनो वचोभिरग्राह्या स्वप्रकाशसदात्मिका अन्धः प्रत्याहृदिवशात् चैत्यं चेन्न विभाविदं मुक्त एव न सन्देहो महासमतया तया न म्रियेण च जीवामि नाहं सन्नाप्यसन्मयः अहं न किञ्चिच्चिदिति मत्वा धीरो न शोचति अलेपकोहमचरो नीरागशान्तवासनः निरंशोऽस्मि चिदाकाशमिति मत्वा न शोचति अहमद्ला विरखित शुद्धो बुद्धो जरो मरह समाभास जरोमर शांदशमस मोचती तृणाग्रेवरे भौ नरनागामेशुति तदेवाहम्वा शोचती भाना सर्वे समुत्सृज्य सवशिषं पर ब्रह्म कवलोस्मी भाव वाचा मतीत विषय विषयाशादशोजिद परानंदर साक्षु रमते स्वात्मनामन सर्वकर्मपरित्यागी नित्यदृप्तो निराश्रयः न पुण्येन न पापेन नेतरेण च लिप्यते स्फटिहप्रतिबिम्बेन ना यथा न्यायाधिरञ्जनं तज्ज्ञःकर्मफलेनान्तस्तथा न्यायाधिरञ्जनम् विहरञ्जनदा वृन्दे देवकीर्तनपूजनैः खेदाह्लादौ न जानादिप्रतिबिम्बगदैरिव निस्तोत्रो निर्विकारश्च पूज्यपूजा विवर्जितः संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः तनुं त्यजतु वा तीर्थेष्वपचस्य गृहेथवा ज्ञानसम्पत्तिसमये मुक्तोऽसौ विकदाशयः सङ्कल्पत्वं हिबन्तस्य कारणं तत्परित्यज मोक्षो भवेदसङ्कल्पात्तदभ्यासं धिया कुरु सावधानो भवत्वं च ग्राह्यग्राहकसङ्गमे अजस्रमे सकलशा पिहरछन मवग्राह्य भाव भावात्मा ग्राहकात्मा चव भावनाखिला भाव त्यक्वा यिष्टंदम भिच्चेद्रोच देभ्यं तत्दि भव स्थितौ न किञ्चिद् रोचते चेत्ते तन्मुक्तोऽसि भव स्थितौ अस्मात् पदार्थनिजयाद्यावस्थावरजङ्गमाद तृणादेर्देहपर्यन्तान् मा किञ्चित्तत्र त्यक्त्वा सदसती तथा यदसक्तं समं स्वच्छं स्थितं तत्तुल्यमुच्यते शांता सातुर्या साक्ष्यवस्थत सालनोच्य नईतज्जाग्रन चन संभवाद सुषुप्त भावो नाप्येदभास् शांत सम्य प्रबुद्धा यहाद जगद विली मिथ्याबुदा स्थित स्थिम अहंकारकलागे समता सगमे विशरार चया वस्तोपतिषते सिद्धांोध्यात्म श्राण सर्वा पह्नव एव ना विद्यास्ति ह नो माया शान्दं ब्रह्मेदमक्लमं शान्द एव चिदाकाशे स्वच्छे शमसमात्मनि समग्रशक्तिखचिते ब्रह्मेदि कलिताभिधे सर्वमेव परित्यज्य महामौनी भवानख निर्वाणवा निर्मनः क्षीणचित्तप्रशान्तधीः आत्मन्येवास्वशान्तात्मा मूकान्धबधिरोपमः नित्यमन्तर्मुखस्वच्छ स्वात्मनान्धः प्रपूर्णधीः जाग्रत्येव कर्माणि वैद्विज अन्तः बहिकुरु बहिः कुरु यथागतम् चित्तसत्ता परम् दुःखम् चित्तत्यागः परम् सुखम् अधः चित्तम् चिदाकाशे नयक्षयमवेदनात् दृष्ट्वा रम्यमरम्यम् वा स्तेयम् पाषाणवत्सदा एतावदात्मयत्नेन जिदा भवति संसृतिः वेदान्ते परमं पुरा कल्पप्रचोदितं नाप्रशान्ताय दातव्यं न शा शिष्याय वै पुनः अन्नपूर्णोपनिषदं योगीदे स जीवन्मुक्ततां प्राप्य ब्रह्मैव भवति स्वयम् इत्युपनिषद इति पञ्चमोऽध्यायः ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यसेम देवहिदं यदायुः यदा स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुरुषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिशान्तिश्शान्तिः इत्यन्नपूर्णोपनिषत्समाप्ता ॐ